अथ श्रीमन्नारायणीये भक्तिमहाकाव्ये प्रथमम् दशकम् सान्द्रानन्दावबोधात्मकमनुपमितम् कालदेशावधिभ्याम् निर्मुक्तम् नित्यमुक्तम् निगमशत सहस्रेण निर्भास्यमानम् अस्पष्टम् दृष्टमात्रे पुनरुपुरुषार्थात्मकम् ब्रह्म तत्त्वम् तत्तावद् भाति साक्षात् गुरुपवनपुरे जनानाम् एवम् दुर्लभ्यवस्तुन्यपि सुलभतया हस्तलब्धे यदन्यत् तन्वा वाचा धिया भजति बत जनः क्षुद्रतैव स्फुटेयम् एते तावद्वयम् स्थिरतरमनसा विश्वपीडापहत्यै निःशेषात्मानमेनम् गुरुपवनपुराधिशमेवाश्रयामः स त्वम् यत्तत्पराभ्यामपरिकलनतो निर्मलम् तेन भूतैर्भूतेन्द्रियैस्ते इस्ते, बहुशः श्रूयते व्यासवाक्यम् तत् स्वच्छत्वाद्यदच्छादितपरसुखचिद्गर्भनिर्भासरूपम् तस्मिन् धन्या रमन्ते श्रुतिमतिमधुरे सुग्रहे विग्रहे ते निष्कम्पे नित्यपूर्णे निरवधि निर्लीनानेकमुक्तावलिसुभगत मे सुभगतमे ब्रह्म सिन्धौ कल्लोलोल्लासतुल्यम् खलु विमलतरम् कस्मान्नो निष्कलस्त्वं। सकल इति वचस्त्वत्कलास्वेव निष्कारणमज भजसे यत्क्रियामीक्षणाख्याम् तेनैवो देति लीना प्रकृतिरसति कल्पापि कल्पादि काले तस्याः संशुद्धमंशम् कमपि तम् अतिरोधायकम् धृत्वा दधासि स्वमहिमपि भवा कुण्ठ वै कुण्ठरूपम् तत्ते प्रत्यग्रधाराधर ललितकलायावली केलिकारम् लावण्यस्यैकसारम् लक्ष्मीनिश्यङ्क लीला निलयनमृतस्यन्त सन्दोहमन्तः सिञ्जत् सञ्चिन्तकानाम् वपुरनुकलये मारुतागारनाथ कष्टा ते सृष्टि चेष्टा भवखे दावहा जीवभाजाम् इत्येवम् पूर्वमालोचितमजितमया नैव मद्याभिजाने लोचे जीवाः नेत्रैः श्रोत्रैश्च पीत्वा परमरसुधाम् भोधि पूरे रमेरन् नम्राणाम् सन्निधत्से सततमपि पुरस्तैरनभ्यर्थितानप्यर्थान् कामानजस्रम् पितरसि परमानन्द सान्द्राम् गतिम् च इत्थम् निःशेष लभ्यो निरवधि च फलः पारिजातो हरे क्षुद्रम् तम् शक्रवाटीद्रुममभिलषति व्यर्थमर्थिव्रजोऽयम् कारुण्यात् काममन्यम् ददति खलु परे स्वात्मदस्त्वम् विशेषात् ऐश्वर्यादीशतेऽन्ये जगति परजने स्वात्मनोऽपीश्वरस्त्वम् त्वय्युच्चैरारमन्ति प्रतिपद चेतनाः स्फीतभाग्याः त्वम् रामये रामयेवेत्यतुल गुणगणाधार शौरे नमस्ते ऐश्वर्यम् शङ्करादीश्वर विनियमनम् विश्व तेजो हराणाम् तेजः संहारि वीर्यम् विमलमपि यशो निःस्पृहैश्चोपगीतम् अङ्गा सङ्गा सदा श्रीरखिल तद्वातागरवासिन्मुरहर भगवच्छब्दमुख्याश्रयोऽसि इति प्रथमम् दशकम्